ब्रह्माण्डपुराणं पूर्वभागम् अध्याय वन् ॐ श्रीगणेशाय नमः श्रीसरस्वत्यै नमः श्रीरामचन्द्राय नमः अध ब्रह्माण्डमहापुराणं पूर्वभागप्रारम्भः नमो नमः क्षये सृष्टौ स्थितौ सत्त्वमयाय वा नमो रजस्तमः सत्त्वत्रिरूपाय स्वयम्भुवे जितं भगवदातेन हरिणा लोकधारिणा अजेन विश्वरूपेण निर्गुणेन गुणात्मना ब्रह्माणं लोककर्तारं सर्वज्ञमपराजितं प्रभुं भोदभविष्यस्य साम्प्रतस्य च सत्पथिम् ज्ञानमप्रतिमं तस्य वैराग्यं च जगत्पदेः ऐश्वर्यं चैव धर्मश्च सद्भिस्सेव्यं चतुष्टयम् इमा नरस्य सदसदात्मकान सदसदात्मकान् अविंशकः पुनस्तान्वै क्रियाभावार्थमीश्वरः लोककृल्लोकतत्त्वज्ञो योगमास्थाय योगविद असृजत्सर्वभूतानि स्थावराणि चराणि च तत्सखं विश्वकर्माणं सत्पदिं लोकसाक्षिणं पुराणाख्यानजिज्ञासुर्गच्छामि शरणं विभुम् पुराणं लोकतत्त्वार्थमशिलं वेदसंमिदं प्रशशंस स भगवान् वसिष्ठाय प्रजापतिः तत्त्वज्ञानां मृदं पुण्यं वसिष्ठो भगवान् ऋषिः पौत्रमध्यापयामास शाक्दे पुत्रं पराशरम् पराशरश्च भगवाञ्जादूकर्ण्यमृषिं पुरा तमध्यापितवान् दिव्यं पुराणं वेदसम्मितम् अधिगम्य पुराणं तु जादूकर्ण्यो विशेषविदद्वै पायनायप्रददौ परं ब्रह्मसनातनम् द्वैपायनस्ततः प्रीतशस्येभ्यः प्रददौ वशी लोकतत्त्वविधानार्थं पञ्चभ्यः परमाद्भुतं विख्यापनार्थं लोकेषु बह्वर्थं श्रुतिसम्मतं जमिनिं च सुमन्धुं च वैशम्पायनमेव च चतुर्थं पैलवं तेषां पञ्चमं लोमहर्षणं सूदमद्भुतवृत्तान्तं विनीदं धार्मिकं श्रुचिम् अधीत्य च पुराणं च विनीतो लोमहर्षणः ऋषिणा च त्वया पृष्ठकृतप्रज्ञः वसिष्ठश्चापि मुनिभिः प्रणाम्य शिरसा मुनीन् भक्त्या परमया युक्तकृत्वा चापि प्रदक्षिणम् अवाप्तविद्यसर्तुष्ठ कुरुक्षेत्रमुपागमत सत्रे सवितते यत्र यजमानानृषीन् शुचीन् विनयेनोपसंगम्य शत्रुरिणो रोमहर्षणं विधानदो यथा शास्त्रं प्रज्ञयाति जगामः ऋषयश्चापि ते सर्वे तदानीं रोमहर्षणं दृष्ट्वा परमसंहृष्टाः प्रीता सत्कारैरर्चयामासुरर्घ्यपाद्यादिभिस्ततः अभिवाद्य मुनीं सर्वान् राजाज्ञामभिगम्य च ऋषिभिस्तैरनुज्ञातः पृष्टसर्वमनामयम् अभिगम्य मुनीं सर्वां सदस्यानुमदे रम्ये स्वास्तीर्णे समुपाविशद उपविष्टे तदा तस्मिन्मुनयःशंसितव्रताः मुदान्विताय धान्यायं विनयस्था समाहिताः सर्वे ते ऋषयश्चैनं परिवार्य महाव्रतं परमप्रदिसंयुक्ता इत्योचसूतनन्दनं स्वागतं ते महाभाग चत्वां निरामयं पश्याम धीमन्नत्रस्तास् सुब्रदं मुनिसत्तमं अशून्यामे रसाध्यैव भवद पुण्यकर्मणः भवांस्तस्य सूद ्यासस्यापि महात्मनः विनयेनोपसंगम्य सन्धृणो रोमघर्षणाद् विधानदो यथाशास्त्रं प्रज्ञयादिजगामः ऋषयश्चापि ते सर्वे तदानीं रोमघर्षणम् दृष्ट् परम संहृष्टा प्रेता सुमनसा सत्चयासुराख्यदिस्त अभिवाद मुनीमगम्युग्रह्य सदाधीमा शिष्यशिष्युणा कृतबुद्धिश्च ते तत्त्वमनुग्राह्यतया प्रभो अवाप्यविपुलं ज्ञानं सर्वतश्चिन्नसंशयः पृच्छतान्नः सदा प्राज्ञा सर्वमाख्यातुमर्हसि सदिच्छामकथां दिव्यां पौराणीं श्रुति श्रोतुं धर्मार्थयुक्तान्तु ये दद्व्यासाच्छ्रुदन्त्वया एव सुकृतस्तदा सुदस्त्वर्षिभिर्विनयान्वितः उवाच परमाप्राज्ञो विनीतोत्तरमुत्तमम् ऋष्ये शुश्रूषणय्यच्च तस्मात्प्रज्ञा मम यस्माच्छुश्रूषणार्थं च तत्सत्यमिति निश्चयः एवं गदेर्थे यश्चक्यं मया वक्तुं द्विजोत्तमाः जिज्ञासा यत्र युष्माकं तदा ज्ञादुमिहार्हथा ये मधुरं तस्य भाषितं प्रत्युचुस्ते पुनः सूतं बाष्पर्याकुलेक्षणं भवान् विशेषकुशलो व्यासं साक्षात्तु दृष्टवान् तस्मात् त्वं कृष्णं लोकस्येमं विदर्शय यस्ययस्यान्वये यस्यान्वये ये ये तां तेषां पूर्वविसृष्टिं च विचित्राम् त्वं प्रजापतेः सत्कृत्य परिपृष्ठः स महात्मा चोमहर्षणः विस्तरेणानुभूर्व्या च कथयामासत्तमः सूत उवाच यो मे त्वै पायनप्रीधकदां वै द्विजसत्तमाः पुण्यामाख्यातवान्विप्रास्तां वै वक्ष्याम्यनुक्रमाद पुराणं पूर्वं नैमिषीयैर्महात्मभिः सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंश्यानुचरितं चैव पुराणं पञ्चलक्षणं प्रक्रियाप्रथमः पाधकथायां स्यात्परिग्रहः अनुषङ्ग उत्पोद्धाद उपसंहार एव एवं पादास्तु चत्वारः समासात् कीर्तिदामया वक्ष्यामि तान् पुरस्तात् विस्तरेण यथा क्रमम् प्रथमम् सर्वशास्त्राणाम् पुराणम् ब्रह्मणाश्रुतम् अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा अव्यक्तं कारणं यत्तन्नित्यं सदा सदात्मकं महदादिविशेषान्तं सृजामीति विनिश्चयः अण्डं हिरण्मयं चैव ब्रह्मणः अडस्यावरणं वार्धिरपामपि च केन भूदादिनाततः ततः भूतादिर्महदा चैव अव्यक्रेणावृतो नदीनां पर्वतानां च प्रादुर्भावोऽत्र पठ्यते मन्वन्तराणां सर्वेषां कल्पानां चैव वर्णनं कीर्तनं ब्रह्मवृक्षस्य ब्रह्मजन्म प्रकीर्त्यते अतः परं ब्रह्मणश्च प्रजासर्गोपवर्णनम् अवस्थात्र कीर्त्यन्ते ब्रह्मणो व्यक्तजन्मनः कल्पानां सम्भवश्चैव जगदस्तापनं तथा शयनं जहरेरप्सुपृथिव्युद्धरणं तथा सविशेष पुरादीनां वर्णाश्रमविभाजनं वृक्षाणां ग्रहसंस्थानां सिद्धानां च निवेशनम् योजनानां यथा चैव सञ्चरो बहुविस्तरः स्वर्गस्थानविभागश्च सर्त्यानां शुभचारिणां वृक्षाणामौषधीनां च विरोधाञ्च प्रकीर्तनं देवतानां ऋषीणाञ्च द्वे श्रुति आम्लादीनां तरूणां सर्जनं व्यञ्जनं तथा पशूनां पुरुषाणां च सम्भवः परिकीर्तितः तथा, तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः नवसर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः त्रयो ये बुद्धिपूर्वास्तु तथा योक ब्रम्मणो वयवेभ्य धर्मीना समुभवे द्वादश प्रसूय प्रजाकनपुन कलपयर प्रोक्त प्रतिसधि तमोमात्रावृतत्वात्तु ब्रह्मणो धर्मसम्भवः सत्त्वोद्रिक्ताच्च देहाच्च पुरुषस्य च सम्भवः तथैव शतरूपायां तयोः पुत्रास्ततः परं प्रसूत्या कृतयः कीर्त्यन्ते धूतपाप्मानस्त्रैलोक्ये ये प्रतिष्ठिताः रुचे प्रजा पदेश्चोर्ध कूत्यां मिथुनोद्भवः प्रसृत्यमपि दक्षस्य कन्यानामुद्भवः शुभः दाक्षायणीषु वाप्यूर्ध्वं शब्दाद्यासु महात्मनः धर्मस्य कीर्त्यदे सर्गसात्त्विकस्तु सुखोदयः तथा धर्मस्य हिंसायां तमसोऽशुभलक्षणः भृग्वादीनां ऋषीणाञ्च प्रजा सर्गोपवर्णनं ब्रह्मर्षेश्च वसिष्ठस्य यत्र गोत्रानुकीर्तनम् अग्ने प्रजाया सम्भूति स्वाहायां यत्र कीर्त्यते पितॄणां द्विप्रकाराणां स्वतायां तदनन्तरं पितृवंशप्रसङ्गेन कीर्त्यते च महेश्वरात् दक्षस्य शाप सत्याश्च भृगवादीनां प्रदिशापश्च दक्षस्य रुद्रादद्भुतकर्मणः प्रतिषेधश्च वैरस्य कीर्त्यदे दोषदर्शनात् मन्वन्तरप्रसङ्गेन कालाख्यानञ्च कीर्त्यदे प्रजापदे कर्दमस्य कन्याया शुभलक्षणम् प्रियव्रदस्य पुत्राणां कीर्त्यते यत्र विस्तरः तेषां नियोगो द्वीपेषु देशेषु च पृथक् प्रधक स्वायम्भुवस्य सर्गस्य ततश्चाप्यनुकीर्तनं वर्षाणाञ्च नदीनां च तद्भेदानां च सर्वशः द्वीपभेदसहस्राणामन्तर्भावश्च सप्तसु विस्तरान्मण्डलं चैव जम्बूद्वीपसमुद्रयोः प्रमाणं योजनाग्रेण कीर्त्यन्ते पर्वतैः सह हिमवान् हेमकूढश्च निषधो मेरुरेव नीलश्वेदश्च शृङ्गी कीर्त्यन्ते सप्तपर्वताः तेषामन्तरविष्कम्भा उच्छ्रायामविस्तराः कीर्त्यन्ते योजनाग्र्येण ये च तत्र निवासिनः भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा भूतैश्चोपनिविष्टानि गदिमद्भिर्धुवैस्तथा जम्बुद्वीपादयोद्वीप समुद्रैः सप्तभिर्वृताः तदस्वर्णमयी भूमिर्लोका लोकश्च कीर्त्यते सप्रमाणा इमे लोका सप्तद्वीपा जमेदिनी रूपाधय प्रकीर्त्यन्ते करणात्प्राकृतैः सह सर्वं चैदत्प्रधानस्य परिणामैकदेशिकं पर्यायपरिमाणञ्च सङ्क्षेपेणात्र कीर्त्यते सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः प्रमाणं योजनाग्रेण साम्प्रतैरभिमानिभिः महेन्द्राद्या शुभा पुण्या मानसोत्तरमूर्धनि अद ऊर्ध्वगतिश्चोक्ता सूर्यस्यालातयक्रवद नागवीध्यक्षवीध्योश्च लक्षणं च प्रकीर्त्यते कोष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः लोकालोकस्य सन्ध्याया अह्नो विशुवतस्तथा लोकपालास्थिताश्चोर्ध्वं कीर्त्यन्ते ते चतुर्दिशं पितॄणां देवतानां च पन्थानौ गृहिणीना चोक्त रजसत्वस कीर्तम विष्णो धर्म च स्िता सूर्याचंद्रम सौ ग्रहां ज्योतिषा तथा कृर्त्यते धतसाथ्याजाच शुभाशुभ ब्रह्मणा निर्मिदसौरसाधनार्थं च स स्वयं कीर्त्यदे भगवान्येन प्रसर्पदिवः क्षयं शरथोद्भिष्टितो देवैरादित्यै ऋषिभिस्तथा गन्धर्वैरप्सरोभिश्च ग्रामणी सर्पराक्षसैः अपां सारमयास्यन्दात्पद्यदे च रसस्तथा वृद्धिक्षयौ च सोमस्य कीर्त्येदे सोमकारिधौ सूर्यादीनां स्यन्दनानां ध्रुवा देवप्रवर्तनं कीर्त्यदे शिशुमारस्य यस्य पुच्छ्ये ध्रुवस्थितः ारूपाणि सर्वाणि नक्षत्राणि ग्रहैस्सह निवासा यत्र कीर्त्यन्ते देवानां पुण्यकर्मणां सूर्यरश्मिसहस्रं च वर्षशीतोष्णविश्रवः प्रविभागश्चरश्मीनां नामधः नाम कर्मतीर्थदः परिमाणं गतिश्चोक्ता ग्रहाणां सूर्यसंश्रयाद् वेश्यारूपात् प्रधानस्य परिमाणो महाद्भवः पुरुरवस ऐलस्य माहात्म्यस्य अनुकीर्तनं पितॄणां द्विप्रकाराणां माहात्म्यं वा मृतस्य च ततः पर्वणाञ्चैव सन्धयः स्वर्गलोकगदानाञ्च प्राप्तानाञ्चाप्यथोगतिम् पितॄणां द्विप्रकाराणां श्राद्धेनानुग्रहो महान् युगसङ्ख्याप्रमाणञ्च कीर्त्यते च युगम् प्रदायुगे दा युगे चापकर्षाद्वार्तायाः सम्प्रवर्तनं वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा वज्रप्रवर्तनं चैव संवादो यत्र कीर्त्यदे ऋषीणां वसुना सार्धं वसोश्चाधः पुनर्गतिः शब्दत्वं च प्रधानात्तु स्वायम्भुवमृदे मनुम् प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः द्वापरस्य कलेश्चापि सङ्क्षेपेण प्रकीर्तनं मन्वन्तरं च प्रकीर्तिता मन्वन्तराणां सर्वेषा मेदेव च लक्षणम् अधीतानागतानां च वर्तमानञ्च कीर्त्यते तथा मन्वन्तराणाञ्च प्रतिसन्धानलक्षणम् अधीतानागतानां च प्रोक्तं स्वायम्भुवे तदः ऋषीणाञ्च गतिप्रोक्ता कालज्ञानगतिस्तथा दुर्गसङ्ख्याप्रमाणं च युगवर्ता प्रवर्तनं त्रेधायां चक्रवर्तीनां लक्षणं जन्म चैव हि प्रमतेश्च तथा जन्म अथो कलियुगस्य वै अङ्गुलैर्हासनं चैव भूदानाय चोच्यते शासानां परिसङ्ख्यानं शिष्यप्राधान्यमेव च वाक्यं सप्तविधं चैव ऋषिगोत्रानुकीर्तनम् लक्षणं सुदपुत्राणां ब्रह्मणास्य च कृष्णशः वेदानां व्यसनं चैव वेदव्यासैर्महात्मभिः मन्वन्तरेषु देवानां प्रदेशानां च कीर्तनं मन्वन्तरक्रमश्चैव कालज्ञानञ्च कीर्त्यते दक्षस्य चापि दौहित्राः प्रिया या दुःखिदुःशुभाः ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता सावर्णाश्चात्र कीर्त्यन्ते मनवो मेरुमाश्रिताः ध्रुवस्य उत्तानपादस्य प्रजा सर्गोपवर्णनम् चाक्षुषस्य मनोसर्गः वीर्यवर्मनम् प्रभुनाचैव चैव वैन्येन भूमि दोहप्रवर्तता पात्राणां वयसां चैव वत्सानाञ्च विशेषणं ब्रह्मादिभिः पूर्वमेव दुग्धा शय्यं वसुन्धरा दशभ्यश्च प्रचेतोभ्यो मारिषायां प्रजापदेहे दक्षस्य कीर्त्यदजन्म समस्यां शेन धीमः भूतभव्यभवेश त्वं महेन्द्राणां च कीर्त्यते मन्वादिका भविष्यन्ति वैवस्वतस्य च मनो कीर्त्यदे सर्गविस्तरः ब्रह्मादिकोश उत्पत्तिर्भृग्वदीनां च कीर्त्यदे विनिष्कृष्य प्रजासर्गे सर्गे चाक्षुषस्य मनो शुभे दक्षस्य कीर्त्यदे सर्गोध्यानाद्वैवस्वतान्तरे नारदकृदसंवादो दक्षपुत्रान् महाबलान् नाशयामासशापाय मानसो ब्रह्मणः सुतः ततो दक्षो सृजत्कन्या वैरिणा नाम विश्रुताः मरुत्प्रवाहे मरुतो दित्यां देव्याञ्च सम्भवः कीर्त्यते मरुदाञ्चात्र गणास्ते सप्तसप्तकाः देवत्वमिन्द्रवासेन वायुस्कन्धेषु चाश्रमः दैत्यानां दानवानां च यक्षगन्धर्वरक्षसां सर्वभूतपिशाचानां यक्षणां पक्षिविरुधाम् उत्पत्तयश्चाप् सरसां कीर्त्यन्ते बहुविस्तरात् मार्तण्डमण्डलं कृष्णं जन्मैरावदहस्तिनः वैनदेयः समुत्पत्तिस्तथा राज्याभिषेचनं भृगूणां विस्तरश्चोक्तस्तथा चाङ्गिरसामपि कश्यपश्य पुलस्त्यस्य तथैवात्रेर्महात्मनः पराशरस्य च मुनेः प्रजानां यत्र विस्तरः तिस्रकन्याः सुकीर्त्यन्ते यासु लोकाः प्रतिष्ठिताः इच्छाया विस्तरश्चोक्त आदित्यस्य ततः परं किं कुविच्चरितं प्रोक्तं ध्रुवस्यैव निबर्षणम् बृहद बलाना संक्षेप दिशक्वा क्वाध्या प्रकीर्तिश्यादीना क्षिदीशा पलांडुहना कीर्त विस्तरा सर्गे ययादरभूपते यदु मुद्देशो हैहय से चतर क्रोधादनन्तरं चोक्रस्तधा वंशस्य विस्तरः ज्यामखस्य च माहात्म्यं प्रजासर्गश्च कीर्त्यते देवा वृद्धस्यान्थकस्य दृष्टेश्चपि महात्मनः अनिमित्रान्वयश्चैव विशोर्मिथ्याभिशंसनं विशोधमनुसम्प्राप्तिर्मणिरत्नस्य धीमदः सत्र जिद प्रजा सर्गे राजर्षेदीषम च चरीद महात्म कंस्यात्म्य मेकी वंशा समुद्भव देवक्यां देव सेव्याोर तेजसा अनन्तरमृषे सर्गप्रजा सर्गोपवर्णनं देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृदे संरक्षदा शक्रवधं शापः प्राप्तः पुरा भृगोः भृगुश्चोद्धापयामास दिव्यां शुक्रस्य मादरं देवानां च ऋषीणाञ्च सङ्क्रमात् नारसिंहप्रभृतय कीर्त्यन्ते पापनाशनाः शुकेणाराधनं स्थाणोर्घोरेण तपसा तथा वरप्रदानकृतेन यत्र शर्वस्तभः कृतः अनन्तरं च निर्दिष्टं देवासुरविचेष्टितं जयन्त्या सहशक्रेण यत्र शुको असुरान्मोहयामास शक्ररूपेण बुद्धिमान् बृहस्पतिश्च तं शुकं शशापस महाद्वितिः उक्त च विष्णोर्माहात्म्यं विष्णोर्जन्मनि शब्द्यते तुर्वसुश्चात्र दौहित्रो यवीयान्यो यदोरभूद अनोर्दृह्यादयः सर्वे तथा तत् नया नृपाः अनुवंश्या महात्मानस्तेषां पार्थिवसप्तमाः कीर्त्यन्ते यत्र कार्ष्ण्येन भूरिद्रविणतेजसः आदित्यस्य तु विभ्रर्षे सप्तधा धर्मसंश्रयाद बार्हस्पत्यं सूरिभिश्च यत्र शापमुपावृतं हारवंशयशस्पर्शन्दनोर्वीर्यशब्दनं भविष्यतां तथा राज्ञामुपसंहारशब्दनम् अनागदानां शङ्खानां प्रभूणां चोपवर्णनम् भौत्येकुगे क्षीणे संहार वर्णन नैमितिकाकृति यथ्वात्य स्मृता विविधसर्वभूता वी प्रतिसचर अना दृष्टिभास्कर संवर्तकानल सांख्ये लक्षण तदो ब्रह्म विशेषतः भुवादीनां च लोकानां सप्तानां चोपवर्णनम् अपरार्थापरैश्चैव लक्षणं परिकीर्त्यते ब्रह्मणो योजनाग्रेण परिमाणविनिर्णयः कीर्त्यन्ते चात्र निरयाः पापानां रौरवादयः सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः ब्रह्मणप्रतिसंसर्गात् सर्वसंसारवर्णनं गतिरूर्ध्वमधश्चोक्ता धर्मा धर्मसमाश्रया कल्पे कल्पे च भूतानां संक्षयम् असङ्ख्यया च दुःखानि ब्रह्मणश्चाप्यनित्यथा दौरात्म्यं दा। चैव भोगानाम् संहारस्य च कष्टता दुर्लभत्वम् च मोक्षस्य वैराग्याद्दोषदर्शनाद् व्यक्ताव्यक्तम् परित्यज्य सत्त्वम् ब्रह्मणि संस्थितम् नानात्वदर्शनाच्छुद्धस्तवस्तत्र निवर्तते ततस्तापत्रयाद्भेदोरूपार्थो हि निरञ्जनः अनन्दम् ब्रह्मण प्राप्य न विभेदिकुतश्च न कीर्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववद कीर्त्यते जगतश्चात्र सर्गप्रलयविक्रियाः प्रवर्तयश्च भूतानां प्रस्तुतानां फलानि च कीर्त्यते ऋषिवर्गस्य सर्गः पापप्रणाशनः जन्म प्रादुर्भाविष्ट शक्रेर्जन्म तथा साहश्चा विश्वाम पराशर से चोत्पत्तिरदृश्यं तथा विभोज पितृकन्यां व्यासा महामुनिशुक सह पुत्रस्य भीमतः पराशरस्य प्रद्वेवो विश्वामित्रऋषिं प्रदि वसिष्ठ सम्भृदिश्चाग्नेर्विश्वामित्रजिकांसया देवेन विधिना विप्रविश्वामित्रहितैषिणा सन्तानहे दोर्विभुना गीर्नस् कन्धेन धीमदा एकं वेदं चतुष्पादं चतुर्था पुनरीश्वरः तथा बिभेद भगवान् व्यासशार्वादनुग्रहाद् तस्य शिष्यप्रशिष्यैश्च शाखावेदायुधाकृतः प्रयोगे प्रह्वलानैव यथा दृष्टस्वयंभुवा पृष्टवन्तो विशिष्टास्ते मुनयो धर्मकाङ्क्षिणः देशं पुण्यमभीप्सतो विभुना तद्धितैषिणा सुनाभं दिव्यरूपाभं सप्ताङ्गं शुभशंसनम् आ नौपम्यद्रम वर्तमानिता पृषद यद नियत पाठि गये चक्र सेशी पुण्य स देशो मंत्य प्रत्युवाच तदा प्रभु उक्त्वा चैव मृषीन् सर्वानदृश्यत्वमुपागमद गर्भ यवाहारा च ईशिरे चैव सत्रेण मुनयो नैमिषे तदा मृदे शरद्वदि तथा तस्य चोद्धापनं कृतम् ऋषयो नैमिषेयाश्च दयया परया युताः निःसीमां गामिमां कृत्वा कृष्णं राजानमाकरद प्रीतिं चैव कृतातिथ्यं राजानं विधिवत्तदा कृता अन्तःसर्गगधक्रोरस्वर्भानुरसुरोहरन् दखा। गंधर्वरक्षितं दृष्ट्वा धृते राजम्रदे मुनयस्तः गंधर्वरक्षि दृष्ट् कलापग्रामकेतन सन्नीपापुनस्त महर्षि दृष्ट् हिण्म विवादस्तरभूत तयमिषेना सत्रे द्वादशवार्षिके तथा विवदमानैश्च यदुसंस्थापितश्च तैः जनयित्वा त्वरण्यं वै यदुपुत्रमधायुधं समापयित्वा तत्सत्रं वायुं ते पर्युपासत इति कृत्य समुद्देश्यः पुराणांशोपवर्णितः अनेनानुक्रमेणैव पुराणम् सम्प्रकाश्यते सुखमर्थः समासेन महानाप्युपलक्ष्यते तस्मात् समासमुद्दिश्य वक्ष्यामि तव विस्तरम् पादमाध्यमिमं सम्यग्धीते विजितेद्रियः तेनाधीतं पुराणं स्यात् सर्वं नास्त्यत्र संशयः यो विद्या चतुरो वेदान् साङ्गोपनिषदान् द्विजाः इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति अभ्यस्सन्निममध्यायं साक्षात् प्रोक्तं स्वयं भुवा नापदं प्राप्य मुखेद यथेष्टां प्राप्नुयाद्गतिं यस्मात्पुराह्य भूच्चैतत्पुराणं तेन तत् निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते अतश्च सङ्क्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणं संसर्गकालेऽपि करोति मार्गसंहारकाले च न भूयः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रिया सुद्देशो नाम प्रथम ओ